namaskara to all of you and uh, welcome to our uh, namaskara to all of you asvitha sanskrita vashnamakade nava sarvebhya atmakam yoganishtha jivanam iti vargye sautam sarvesam swagatam tarhi atra yogaha namakim iti asmahi purvam charhitam yogaha nama apurnatatah purnata pratim gamanam एव योगः अपूर्णतातः पूर्णता पूर्णतां प्रति गमनं योगः मनुष्याणां त्रिस्तरीय त्रिस्तरीय अस्तित्वं वर्तते त्रिस्तरीय अस्तित्वं वर्तते शारीरिक अस्ति अस्तित्वं मानसिक अस्तित्वम् आध्यात्मिक अस्तित्वं च तर्हि पूर्णता पूर्णतां प्रति गमनम् इति उक्तं पूर्णता तु केवलम् आध्यात्मिक आध्यात्मिकस्तरे एव भवितुम् अर्हति मया उक्तं मनुष्याणां त्रिस्तरीय अस्तित्वं वर्तते शारीरिकं मानसिकम् आध्यात्मिकम् इति अपि च पूर्णता आध्यात्मिकस्तरे एव भवितुमर्हति यदा वयं चेष्टां कुर्मः तस्यां दिशि तदानीं तत्र मनुष्यः क्रमेण क्रमेण तत्र परमात्मानं प्रति गच्छति गत्वा तस् तस् तस्यां दिशि गत्वा परमात्मन सह ऐक्यं प्राप्नोति तत्र केवलं परमपुरुषः एव गुणातीतः अस्ति अस्मिन् जग अस्मिन् जगति केवलं परमपुरुषः एव गुणातीतः अस्ति सः एव पूर्णवस्तु अस्ति अन्यत् सर्वम् अपूर्णम् अन्यत् सर्वं गुणैः गुणैः सह अन्यानि सर्वाणि वस्तूनि गुणैः सह वर्तन्ते अपि च तैः गुणैः बन्धनं भवति तैः गुणैः बन्धनं भवति सीमा भवति परमपु केवलं परमपुरुषः गुणातीतः तर्हि मनुष्याणां गमनमस्ति मनुष्याणां सर्वदा गतिः गतिः वर्तते अस्मिन् जगति यत्किमपि अस्ति सर्वस्मिन् गतिः वर्तते यत् गमनम् अस्ति प परमपुरुषं प्रति तद् तद् तदेव गमनम् अस्ति पूर्णतां प्रति गमनं मनुष्येषु एतादृशगमनं पूर्णतां प्रति गमनम् आध्यात्मिकस्तरे किमर्थमस्ति इति चेत् मनुष्येषु तत्र पूर्णतायाः बीजः वर्तते मनुष्येषु केवलमनुषेषु पूर्णतायाः बीजः वर्तते इति कृत्वा तादृशगमनं शक्यते किं तत्र पूर्णतायाः यत् यः बीजः अस्ति तस्य आकारः अस्ति अनन्तेषणा तस्य आकारः अस्ति अनन्तेषणा तादृशी एषणा अस्ति तस्याः अन्तः अन्तः नास्ति यदि अत्र गुरोः सम्यक्तया मार्गदर्शनं यदा भवति तदानीं सा अनन्तेषणा याहा वर्धनं भवति अन्ततो गत्वा परमात्मनासह सह ऐक्यमपि भवति वयं जानीमः मनसः स्वस्य आकारः नास्ति तद् यस्य विषये चिन्तनं करोति तद्वद् भवति यादृशी भावना यस्य सिद्धिः तादृशी भवति तर्हि यथा चिन्तनं भवति तद्वत् अस्माकं मनः भवति यदि तत्र बाह्यवस्तुनः चिन्तनं भवति तर्हि मनः तद्वत् भवति यदा मनः अन्तर्मुखी भवति अन्तर्मुखी भूत्वा परमात्मनः विषये चिन्तनं करोति तदानीम् अग्रगतिः भवति अपूर्णतातः पूर्णतां प्रति गमनं भवति आदौ तु मनुष्यः अपूर्णतायाः अवस्थायामेव अस्ति किमर्थं चेत् मनुष्याणां पञ्चाशत् वृत्तयः सन्ति पञ्चाशत् वृत्तयः सन्ति वृत्तिः नाम मानसिकप्रवृत्तिः अस्ति वृत्तिः नाम मानसिकप्रवृत्तिः अस्मासु एतादृश बहवः बह्व्यः वृत्तयः सन्ति यथा लज्जा जुगुप्सा भयम् ईर्ष इति एवं रीत्या बहवः बहु बह्व्यः वृत्तयः सन्ति अस्मासु मनुष्ये मनिष्येषु सप्तचक्राणि अपि सन्ति मनिष्येषु अत्र मेरुदण्डः यः अस्ति तत्र स्फैनल् काड् तत्र स्मै स्फैनल् का स्फैनल् काड् मेरुदण्डस्य अधोभागे अधोभाग अधोभागात् आरभ्य क्रमेण भिन्नभिन्नचक्राणि सन्ति मनुष्येषु तर्हि Uh, ते ते सर्वे तु मेरुदण्डस्य पार्श्वे एव सन्ति क्रमेण सन्ति uh, तत्र मेरुदण्डस्य अधोभागे आदौ तत्र मूलाधारचक्रः चक्रमस्ति मेरुदण्डस्य अधोभागे बेस् आफ़् द स्पैनल् कार्ड् मूलाधारचक्रं वर्तते ततः अग्रे किञ्चित् अग्रे गच्छामः चेत् तदानीं स्वादिष्टानचक्रं वर्तते ततः अग्रे किञ्चित् अग्रे गच्छामः चेत् तत्र मणिपुरचक्रचक्रं वर्तते ततः अग्रे नाहतचक्र ततः अग्रे विशुद्धचक्र ततः अग्रे तत्र आज्ञाचक्र ततो गत्वा सहस्रारचक्र अस्य विषये किञ्चित् एव तत्र बहु विस् विस्तारेण न वदामि केवलं किञ्चित् परिचयरूपेण वदामि अस्मासु किमर्थं मनुष्याः आरम्भावस्थायां अपूर्णतायाः अवस्थायां मनुष्याः किमर्थं भवन्ति इति चेत् मनुष्येषु पञ्चाशत् वृत्तयः सन्ति इदानीं के उदाहरणार्थं मूलाधारचक्रं वयं पश्यामः चेत् मूलाधारचक्रे तत्र मेरुदण्डस्य अधोभागे वर्तते तत्र चत्वारः चतस्रः वृत्तयः सन्ति धर्मः अर्थः कामः मोक्षः तत्र आध्यात्मिकबीजः यः अस्ति अनन्तेषणायाः बीजः तत्र एव मूलाधारचक्रे वर्तते मू तादृशबीजः अनन्तेषणायाः बीजः सुषुप्त अवस्थायां भवति सुषुप्त प्रायेण मनुष्याणां सुषुप्त अवस्थायामेव आध्यात्मिकबीजः भवति तत्र मूलाधारचक्रे तत्र कुलकुण्डलिनि कुण्डलिनी वर्तते कुलकुण्डलिनी इत्युक्ते तत्र यः सर्पः सुप्तः वर्तते यः सप्तः वस्तुतः कुण्डलितः सर्पः तत्र सुप्तः वर्तते तत्रैव आध्यात्मिक एषणा अनन्तेषण तत्रैव वर्तते सा सा एषणा अस्माकं प्रतीक्षां करोति यदा अस्माकम् अन्तश्चक्षुः उद्घाटितः भवति यदा अस्माभिः अवगम्यते यद् एतावता मया पशुजीवनं आ, मया पालितम् एतावता बहुकालपर्यन्तं मया पशुजीवनं पालितम् इति यदा अस्माकम् अन्तश्चक्षुः उद्घाटितः भवति तदानीं तत्र सुप्तवस्थायां यः सर्पः अस्ति सः सर्पः जागरितः भवति जागरितः भवति युग युगयुगपर्यन्तम् युग, अस्माभिः पशुजीवनस्य पालनं कृतं तदानीं यदा अन्तः अन्तःचक्षुः उद्घाटितः भवति तदानीं वयं वदामः इतः अग्रे इतः अग्रे मास्तु पशुजीवनं मास्तु यदा तादृशी अस्माकम् आकाङ्क्षा जागृता भवति तदानीं किं भवति इति चेत् तदानीं तत्र कुलकुण्डलिनी या वर्तते तत्र मूलाधारचक्रे सा ऊर्ध्व उर्द, ऊर्ध्वगतिम् आरभते ऊर्ध्वगतिम् आरभते ततः सा उपरि गच्छति तदानीं इति कृत्वा तत्र एव कुलकुण्डल्यां आध्यात्मिकबीजः वर्तते तर्हि मूलाधारचक्रे धर्मार्थकाममोक्षः तत्र मोक्षः मोक्षः इत्युक्ते अनन्तेषण आध्यात्मिक इच्छा अनन्तं प्रति आध्यात्मिक इच्छा तत्र एव वर्तते तत्र वर्तते ततः अग्रे य शुद्ध आध्यात्मिकाङ्क्षा या वर्तते सा एव मो सा एव मोक्षः इति वयं वदामः तादृश इच्छा मूलाधारचक्रे वर्तते ततः अग्रे किञ्चित् वयम् अग्रे गच्छामः चेत् तदानीं अन्ये अन्याः वृत्तयः सन्ति प्रत्य प्रत्येकस्मिन् चक्रे भिन्नभिन्नवृत्तयः सन्ति वृत्तयः तु मानसिकप्रवृत्तिः अस्ति किमपि कर्तुं मानसिकप्रवृत्तिः अस्ति एताः वृत्तयः याः सन्ति ताः क्लेशः मानवजीवने क्लेशाः जनयन्ति एताः वृत्तयः सन्ति इति कृत्वा एव अस्माक अस्माभिः आध्यात्मिकविषये चिन्तनं कर्तुं न शक्नुमः अतः अत्र योग योग इत्यत्र एत एतासां वृत्तीनां निवारणम् एव एतासां वृत्तीनां एतासां वृत्तीनां नियन्त्रणम् एव अत्र अस्माकं लक्ष्यं तर्हि इदानीं अग्रे वयं गच्छामः चेत् मूलाधारचक्रतः अग्रे गच्छामः चेत् तदानीं स्वादिष्ठानचक्रं वर्तते तत्तु कुत्र अस्ति इति चेत् उपस्था यत्र वर्तते तत्र एव उपस्था यत्र वर्तते द लेवेल् आफ़् द जेनेटर्स् तत्र स्वादिष्ठानचक्र वर्तते तत्र वयं पश्यामः चेत् तत्र स्वादिष्ठानचक्रे अवज्ञा इति एका वृत्तिः अस्ति अवज्ञा अवज्ञामि अवज्ञा नाम परस्य अपमान अपमानप्रवृत्तिः अपमाननप्रवृत्तिः यदा भवति तदा अवज्ञा इति वृत्तिः तस्मिन् चक्रे वर्तते स्वादिष्टानचक्रे वर्तते अपि अविश्वासः अविश्वासः इति अपि अन्यावृत्तिः सर्वनाशः इति अपि अन्य अन्या अन्यावृत्तिः इत्युक्ते तादृशचिन्तनम् येन नाशः भवति तादृशचिन्तनम् अनन्तरं तत्र क्रुदिता इति अपि अन्या वृत्तिः वस्तुतः तत्र षड् वृत्तयः सन्ति स्वादिष्ठानचक्रे अवज्ञा मूर्छा अविश्वासः सर्वनाशः क्रूदिता इति एवं रीत्या प्रत्येकेऽस्मिन् चक्रे भिन्नभिन्नवृत्तयः सन्ति वस्तुतः समग्ररीत्या पञ्चा पञ्चाशत् वृत्तयः सन्ति अग्रे वयं गच्छामः चेत् यत्र अस्माकं नाभिः अस्ति तत्र मणिपुरचक्र वर्तते मणिपुरचक्रचक्रे अपि भिन्नभिन्नवृत्तयः सन्ति यथा लज्जा लज्जा आ, पिशुनता ईर्ष तृष्णा मोहः गृणा भयम् इत्येवं रीत्या तत्र बह्व्यः वृत्तयः सन्ति वस्तुतः मणिपुरचक्रे दशवृत्तयः सन्ति ततः अग्रे वयं अनाहतचक्र तत्रापि वृत्तयः सन्ति द्वादशवृत्तयः सन्ति ततः अग्रे वयं गच्छामः चेत् विशुद्धचक्र विशुद्धचक्रे अपि तत्र षोडशवृत्तयः सन्ति ततः अग्रे वयं गच्छ गच्छामः चेत् आज्ञाचक्र बिट्वीन् द टु ऐब्रोस् तत्र तत्र एव आज्ञाचक्र इति वयम् आज्ञाचक्रमिति वयं वदामः तत्र एव मनसः प्रधानस्थानम् आज्ञाचक्रे मनसः प्रधानस्थानं वर्तते तत्र वृत्तिद्वयं वर्तते एका वृत्ति अस्ति अपरावृत्ति अन्यावृत्तिः अस्ति परावृत्ति परावृत्ति आज्ञाचक्रे वृत्तिद्वयम् अपरावृत्ति परावृत्ति अपरावृत्ति इत्युक्ते लौकिकज्ञानस्य लौ वृत्तिः अपरावृत्तिः नाम लौकिकज्ञानस्य वृत्तिः लौकिकज्ञानं नाम यत्किमपि भवतु विज्ञानं वा भवतु किमपि किमपि ज्ञातुम् इच्छामः इत्युक्ते नालेज् आफ़् वा भवतु अथवा इन्स्ट्रुमेण्टल् नालेज् भवतु अथवा यत्किमपि भवतु नालेज् आफ़् द प्लाण्ट्स् नालेज् आफ़् यत्किमपि भवतु पशु पशुविज्ञानं सस्यानां विज्ञानम् अथवा यत्किमपि भवतु भौतिकविज्ञानम् एतत् सर्वं लौकिकविज्ञानमेव तत् परा अस्ति अनन्त तत्तु अपरावृत्तिः अस्ति क्षमेतं तत्तु अपरावृत्तिः अस्ति परावृत्ति परावृत्तिः तु आध्यात्मिकज्ञानम् आध्यात्मिकज्ञानमेव परावृत्तिः परमात्मना परमात्मानं ज्ञातुम् इच्छा या अस्ति तस्य विषये तस्य परमात् परमात्मनविषये ज्ञानम् एव परावृत्तिः स्पिरिच्युवल् नालेज् इस् परावृत्ति इति कृत्वा तत्र प्रत्येकस्मिन् चक्रे आहत्य पञ्चाशत् वृत्तयः सन्ति मानसिकप्रवृत्तयः सन्ति मनुष्यः नाम मनुष्यः नाम किम् इति चेत् मनुष्यः मनुष्ये मनसः प्राधान्यं वर्तते मनसः प्राधान्यं वर्तते अस्मिन् जगति एकः एव जीवः अस्ति यस्मिन् मनसः प्राधान्यं वर्तते सः जीवः अस्ति मनुष्यः तर्हि ये याः पञ्चाशत् वृत्तयः सन्ति इति मया उक्तं तत्र तासु वृत्तिषु एका वृत्ति अस्ति परमपुरुषस्य प्राप्ति प्राप्त्यर्थम् एका वृत्तिः अस्ति द डिसैर् टु अटेण्ड् परमात्मा देर् इस् ओन्लि वन् वृत्ति सा uh, वृत्ति अस्ति परा वृत्ति परावृत्ति आकाङ्क्षा अस्ति परमात्मनः विषये ज्ञातुम् आकाङ्क्षा आकाङ्क्षा वर्तते आध्यात्मिका आकाङ्क्षा वर्तते सा आकाङ्क्षा आज्ञाचक्रे वर्तते परमात्मानं ज्ञातुम् इच्छा तत्तु तत्र आध्यात्मिकविज्ञानं विज्ञानस्य ज्ञानम् आज्ञाचक्रे वर्तते अतः योगे अस्माकं लक्ष्यं किम इति चेत् ये याः वृत्तयः सन्ति तासां नियन्त्रणं तासां नियन्त्रणम् अनन्तरं याः वृत्तयः सन्ति तासां प्रणालीकरणं वि नि टु चानलैस् दोस् वृत्तीस् टुवर्ड्स् यु नो अटेनिङ्ग् दि इन्फनैट् टु अटेनिङ्ग् दि परमपुरुष सो याः वृत्तयः सन्ति तेषां नियन्त्रणम् अपि च प्रणालीकरणं येन अन्तत अन्ततो तत्र परावृत्तेः वर्धनं भवेत् परावृत्तेः वर्धनं भवेत् आज्ञाचक्रे एव तत्र मनसः प्रधानस्थानं वर्तते यदा अन्य वृत्तीनां नियन्त्रणं भवति अपि च तेषां प्रणालीकरणं भवति तदानीं परावृत्तेः वर्धनं भवति तदानीं सर्वं तत्र एकाग्रं भवति तर्हि सर्वम् एकाग्रं भवति तदानीम् अस्माकं जीवनस्य लक्ष्यं किम् इति चेत् एकाग्रतया एकाग्रतया वयम् अनन्त्वेषणायाः वर्धनं कर्तुं प्रयत्नं कुर्मः परमात्मानं परमात्मनः प्रीत्यर्थं वयं प्रयत्नं कुर्मः सा, सा, सा, सा प्रक्रिया एव योगः इति वयं वदामः अत्र अत्र भिन्नभिन्नवृत्तयः सन्ति इति मया उक्तं यता तत्र स्वार्थः लज्जा घृणा अहङ्कारः विकलता दम्भः इति एवं रीत्या बहवः बह्व्यः वृत्तयः सन्ति तेषां सर्वेषां तासां सर्वासां वृत्तीनां नियन्त्रणं कथं क्रियते इति चेत् योगद्वारा क्रियते यदा तासां वृत्तीनां नियन्त्रणं करोति तदानीं तेषां प्रणले प्रणालीकरणं भवति तदानीम् अस्माकं वर्धनं भवति परमात्मानं परमात्मनः आकर्षणं वर्धते परमात्मानं प्रति आकर्षणं वर्धते योग अभ्यासद्वारा तेन भवति यदा परमात्मानं प्रति आकर्षणं वर्धते तदानीं मनः अत्र अग्रगतिं प्राप्तुं शक्नोति तत्र चेष्टां कर्तुं शक्नोति साधनां कर्तुं चेष्टां कर्तुं शक्नोति येन अस्माकम् अग्रगतिः भवति अपूर्णतातः पूर्णतां प्रति अस्माकं वर्धनं भवति तर्हि पूर्णतायाः बीजः अस्माकम् अन्ते वर्तते सर्वेषां मनुष्याणाम् अन्ते पूर्णतायाः बीजः वर्तते यदि सम्यक्तया मार्गदर्शनं भवति तदानीं अनन्तेषणायाः वर्धनं भवति तदानीम् अस्माकम् अग्रगतिः अपि भवति योगः अस्मासु तादृशी अनन्तेषणायाः वर्धनं करोति येन अस्माकं मानसिकप्रवृत्तयः सम्यक् दिशि गन्तुं शक्नुवन्ति अन्यता किं भवति इति चेत् जनाः किं कुर्वन्ति साधारणतया लौकिकवस्तुषु ते व्यस्ताः भवन्ति किमपि किमपि कुर्वन्ति एतत् करोमि एतत् करोमि इति सर्वदा व्यस्ताः भवन्ति लौकिकविषये तदानीं तत्र आकर्षणं कुत्र अस्ति आकर्षणं लौकिकवस्तूनि प्रति अस्ति तर्हि तदानीम् अन्यासां वृत्तीनाम् एव वर्धनं भवति न या परावृत्तिः अस्ति तस्य तस्याः वर्धनं न भवति अद्यत्वे सर्वे बहु बहु सन्ति किमपि किमपि कुर्वन्ति परन्तु तैः तैः कार्यैः अग्रगतिः तु न भवति खलु ये जनाः योगनिश्च जीवने व्यस्ताः सन्ति तर्हि अत्र योगः अस्मान् बोधयति यत् अस्माकम् अग्रगतिः कथं भवितुम् अर्हति येन परमात्मनः साक्षात्कारः भवितुम् अर्हति परमात्मनः साक्षात्कारः एव मानवस्य धर्मः अस्ति इति तदानीं वास्तविकः योगः आरभ्यते तदानीं तत्र संयोगः भवति जीवात्मनः परमात्मनः परमात्मना शिवेन सह संयोगः भवति तदर्थं किम् अपेक्षितं तदर्थं किम् अपेक्षितं तत्र सहकारः अपेक्षितः कस्य सहकारः इति चेत् मनसः सहकारः अपेक्षितः शरीरस्य सहकारः अपेक्षितः वास्तविकपूर्णता तु आध्यात्मिकस्तरे एव भवति अस्माकं त्रिस्तरीयजीवनमस्ति शारीरिकमानसिक आध्यात्मिक पूर्णता तु आध्यात्मिकस्तरे एव भवितुमर्हति परन्तु तदर्थम् अस्माकं सहकारः अपेक्षितः कस्य मनसः शरीरस्य इति कृत्वा योगः सर्वेषु स्तरेषु कार्यं करोति समन्वितरूपेण को आर्डिनेटेड् फेशन् योग द प्रोसेस् आफ़् योग टेक्स् प्लेस् on all the three levels in a coordinated fashion a uh, bauddhika stare bauddhika stare yoga darshanam martate yoga darshanam martate asman bodhayeti katam agre gantum a uh, swapnamaha eti yoga darshanam tu avashyakam asti margadarshana artham avashyakam asti a uh, yoga darshanam margam pradarshayati kim karaniyam kim nakaraniyam eti margam pradarshayati uh, asma vihi kutaha uh, agataha kutaha अस्माभिः गम्यते मानसिकस्तरे परमात्मनः साक्षात्कारः केवलं पुस्तकज्ञानेन भवितुं न अर्हति तत्र केवलं सत्सङ्गद्वारा न भवितुम् अर्हति एतत् सर्वम् अपेक्षितमस्ति पुस्तकज्ञानम् अपेक्षितमस्ति सत्सङ्ग सत्सङ्गः अपि अपेक्षितः अस्ति तत्सर्वम् अस्मा अस्माकं कृते मार्गदर्शनं प्रदर्शयति कुत्र गन्तव्यं किं करणीयं एतत् सर्वं वयं बौद्धिकस्तरे अवगच्छामः केवलं परमात्मनः नाम उच्चारणेन एव परमात्मनः साक्षात्कारः भवितुं न यदा अस्माकं साधनाद्वारा परमात्मनः अनुभवः भवति तदानीमेव अस्माकम् अग्रगतिः भवितुम् अर्हति तत्र योगदर्शनदर्शने यद् यः यः सिद्धान्तः अस्ति सः तु अवश्यमेव अस्माकं सहायं सिद्धान्तः तु सहाय्यम् अवश्यं करोति तद् तद् दर्शनं योगदर्शनम् अस्माकं मनसः कृते मार्गदर्शनं करोति येन वयं सम्यक् कार्येषु व्यस्तः भवितुम् अर्हामः तत्र मानसिकस्तरे एतत् सर्वम् अपेक्षितमस्ति परन्तु केवलम योगदर्शनं केवलम योगदर्शनम् एव पर्याप्तं वा इति नास्ति अस्माभिः दृष्टं पुस्तकीयज्ञानात् किमपि न भवति केवलं बहुवारं मया पठितम् अहं ब्रह्मास्मि अहं ब्रह्मास्मि अहं ब्रह्मास्मि इति शतवारं मया पठितं तेन साक्षात्कारः न भवितुम् अर्हति अपि च शारीरिकस्तरे अपि अस्य विषये बहुवारम् उक्तं पुनः अपि वदामि यतोहि अस्माकं सर्वदा भ्रमः भवति सम्यक् आहारेण किं वा भवितुम् अर्हति किमर्थं मया सम्यक् आहारः खादितव्यः तेन किं वा भवितुमर्हति अत्र शारीरिकस्तरे उचितभोजनम् आसनानि उपवासः व्यायामः एतत् सर्वं यदस्ति तद् अस्माकं कृते एकं समीचीनम् आधारः अनेन एतैः अस्माकं कृते एकः एकं एकः समीचीनः आधारः स्माकं मनसः विस्तारस्य कृते मनसः वर्धनार्थम् एतत् सर्वम् अपेक्षितम् अस्ति मनः यस्य विषये वयं चिन्तनं कुर्मः तद् आकारं स्वीकरोति इति वयं जानीमः मनसः स्वस्य आकारः तु नास्ति मनसः मनः परमात्मनः विषये ज्ञानं कर्तुं साधनापेक्षिता साधनापेक्षिता वर्तते तदर्थम् अस्माकं शरीरं सम्यक् भवेत् स्वस्थ शरीरं स्वस्थं भवेत् अद्यत्वे वयं लोके वयं पश्यामः चेत् योगः इति इति चेत् ते किं कुर्वन्ति योगः इत्युक्ते सर्वदा आसनानि इत्येव वदन्ति परन्तु अस्माकं योग योगस्य लक्ष्यं किम् इति चेत् अनन्त अनन्तप्राप्तिः एव योगस्य लक्ष्यं तत् केवलम् आसन आसनैः भवितुं न अर्हति आसनानि अपेक्षितानि आसनानि अपेक्षितानि किमर्थम् आसनानि अपेक्षितानि यतोहि यदा आसनानि वयं कुर्मः तदानीम् अस्माकं शरीरे ये ग्रन्थयः सन्ति तेषां सम तेषां तत्र बेलेन्स् भवति शरीरे ये ग्रन्थयः सन्ति तेषां तेषां सम्यक्तया नियन्त्रणं भवति सन्तुलित अवस्थायां सन्तुलितावस्थायां ग्रन्थयः भवन्ति तेन अस्माकम् अग्रगतिः भवति आसनानाम् अपेक्षा वर्तते तो अन्ततो गत्वा किं वक्तव्यम् इति चेत् तत्र मनुष्यस्य जीवने मनुष्यः मनुष्यस्य त्रिस्तरीय अस्तित्वं वर्तते मानसिक आध्यात्मिक अस्माभिः योगद्वारा त्रिषु अपि स्तरेषु वयं प्रयत्नं कुर्मः शारीरिकस्तरे अपि प्रयत्नं कुर्मः मानसिकस्तरे अपि प्रयत्नं कुर्मः आध्यात्मिकस्तरे अपि प्रयत्नं कुर्मः तदर्थं योगः योगः अस्मान् बोधयति प्रतिदिनम् अस्माभिः किं करणीयम् अस्माभिः कथं निद्रा अस्माभिः कथं निद्रा करणीया जागृतावस्था अवस्थायाम् अस्माभिः किं करणीयम् एतत् सर्वं मानसिक आध्यात्मिकशारीरिकस्तरे अस्मान् बोधयति अस्माकं मार्गदर्शनं करोति येन अस्माकं अग्रगतिः भवति त्रिषु अपि स्तरेषु इदानीं तत्र अस्माकं वर्गेषु अस्माकं बहवः वर्गाः सन्ति खलु योगनिष्ठजीवनम् इति वर्गाः तत्र अस्माभिः श्रूयते बहवः जनाः आगत्य वदन्ति मम एतादृशलाभः अभवत् एतादृशलाभः अभवत् इति तत्र केचन जनाः ये अस्य विषये सर्वं पालयन्ति तेषु केचन केचन उक्तवन्तः यत् एत एतादृशयोगनस्य जीवनस्य पालनेन केवलम् एक एकम एकमास मासाभ्यन्तरे मासा एव तेषां डायबिटीस् मधुमेहः इति रोगः गतः ते इदानीम् औषधमपि न स्वीकुर्वन्ति अपि च अन्ये अपि सन्ति ये आगत्य उक्तवन्तः यत् तेषाम् इदानीं बि पि बहु नियन्त्रणावस्थायाम् अस्ति औषधमपि ते न स्वीकुर्वन्ति अपि च अन्ये आगत्य उक्तवन्तः यद् ते रात्रौ सम्यक्तया निद्रां कर्तुं शक्नुवन्ति पूर्वं तादृशी नास्ति अपि अन्ये उक्तवन्तः यत् तत्र सम्पूर्णदिनं तत्र कार्यं कर्तुं तत्र एनर्जि अस्ति ऊर्जा अस्ति अतः ते किं सर्वं सम्यक्तया कर्तुं शक्नुमः एकाग्रतया सर्वं कर्तुं शक्नुमः इति एवं रीत्या वयं सर्वे जनाः ये ये अस्मिन् विषये अस्य विषये पालनं कुर्वन्ति अत्र यद् ये अभ्यासाः उक्ताः पालनं कुर्वन्ति तेषाम् अग्रगतिः अस्ति इति वयं शारीरिकस्तरे अग्रगतिः अस्ति इति वयं द्रष्टुं शक्नुमः यदि तत्र औषधं न स्वीकुर्मः आलोपथिक् औषधं न स्वीकुर्मः तर्हि लाभः एव खलु तेन बहु सैड् एफ़ेक्ट्स् बहु किमपि भवति तर्हि सम्पूर्णतया अलोपि अलोपथिक् न स्वीकुर्मः इति भवति चेत् बहु सम्यक् अस्ति खलु तदानीं अस्माकं मनसः वर्धनम् अवश्यं भवति शारीरिकवर्धनमपि भवति अतः अग्रगतिः अपि भवति तेन वयं पूर्णतां प्रति गन्तुं शक्नुमः अतः अस्माकं शरीरम् आधारः अस्ति तत्र मानसिकवर्धनार्थम् आध्यात्मिक अग्रगत्यर्थं तत्र आध्यात्मिकपूर्णतां प्रति अग्रगमनार्थं शरीरमेव आधारः अस्ति खलु अतः शारीरिकस्तरे भोजनं बहु आवश्यकमस्ति अतः किमर्थं मया एतादृशं खादितव्यं किमर्थं मया तामसिकाहारं किमर्थं मया स्वीकर्तुम् आहारं स्वीकर्तुं किमर्थं न शक्यते इति आहारः स्वीकर्तुं न शक्यते इति एतादृशप्रश्नाः सर्वदा भव प्रश्नाः भवन्ति परन्तु उत्तरं किम् इति चेत् शरीरं सम्यक् भवेत् शरीरं सम्यक् अस्ति चेत् तदानीमेव अग्रगतिः भवति यदा शरीरं सम्यक् नास्ति तत्र उचितभोजनं न स्वीकुर्मः तदानीं क किं भवति शरीरः शरीरं रोगस्य आधारः भवति यदा रोगस्य आधारः भवति तदानीम् अग्रगतिः कदापि न भवति भवितुम् अर्हति यदि शरीरे रोगाः भवन्ति तदानीं मनः मनसः अवस्था कथं वा कथं वा भवति चिन्तयन्तु तर्हि तादृश अवस्थायां साधनां कर्तुं शक्यते वा अवस्थायाम् एकाग्रता लभ्यते कदापि न लभ्यते यदा शरीरं स्वस्थं भवति तदानीमेव वयम् अग्रगतिं प्राप्तुं शक्नुमः ये जनाः योगनिष्ठजीवने एकं दिनमपि तत्र व्यतीतवन्तः योगनिष्ठजीवने इत्युक्ते तत्र उचिताहारं स्वीकृतवन्तः तैः अवगन्तुं शक्यते तत्र एकदिनं वयं स्वीकुर्मः चेदपि तत्र शरीरस्य उपरि कीदृशप्रभावः भवति इति वयम् अवगन्तुं शक्नुमः इत्युक्ते इवन् इ् यु ईट् फ़ार् वन् डे यु विल् रियलैस् यु नो यु विल् नाट् हेव् एनि प्राब्लम् आफ़् युनो इन् डैजेशन् यु वि नाट् हेव् हार्ट् बण्ड् इवन् जस्ट् फोर् वन् डे इति कृत्वा तत्र शारीरिकस्तरे अपि बहवः लाभाः सन्ति अपि च आध्यात्मिकस्तरे अपि बहवः लाभाः सन्ति इति कृत्वा अत्र इति कृत्वा अस्माभिः पुनः पुनः आहारस्य विषये आहारस्य विषये वयं पुनः पुनः वदामः अस्तु इति अत्र उक्त्वा इतः अग्रे अस्माकं करपत्रं प्रति गच्छामः कोऽपि प्रश्नः अस्ति अस्तु तर्हि अत्र ब्रह्मनाम किम् इति करपत्रं प्रति गच्छामः तत्र अस्माभिः उक्तमस्ति ब्रह्मणि प्रकृतिः अपि अस्ति पुरुषः अपि अस्ति द्वौ भागौ स्तः अनयोः पृथक्करणं कदापि न शक्यते अनयोः अविनाभावः सम्बन्धः अस्ति कागदस्य भागः ये भागाः सन्ति कागदस्य उपरि अधः अधः भागः तादृशभागः इव प्रकृतिपुरुषः पुरुषः तयोः अविनाभावः सम्बन्धः वर्तते तेषु तयोः पृथक्करणं कदापि न शक्यते तयोः द्वयोः अपि आदिः अपि नास्ति अन्तः अपि इति अस्माभिः उक्तं तर्हि आदिः नास्ति इति उक्तम् अन्तः अस्ति वा इति प्रश्नः आसीत् तदर्थं ब्रह्मणः अन्तः अस्ति चेत् मापनं शक्यते वा इति चेत् ब्रह्मणः अन्तः वस्तुतः नास्ति तत्र वस्तुतः अत्र लोके तादृशयन्त्रं नास्ति येन ब्रह्मणः मापनं शक्यते पञ्चभूतैः तु मापनं न शक्यते ब्रह्म सूक्ष्मवस्तु अस्ति तर्हि पञ्चभूतानि स्थूलानि सन्ति तैः तु ब्रह्मणः मापनं न शक्यते पञ्चभूतानां विहाय अन्यत् किम् अस्ति इति चेत् मनः अस्ति तर्हि मनसा मनसा मनसः ब्रह्मणः मापनं शक्यते इति चेत् तथापि न शक्यते यदि मनसः ब्रह्मणः मापनं करणीयं तर्हि तत्र मनसः त्रयः भागाः सन्ति तेषु अहं तत्त्वेन एव भ्रमणः मापनं शक्यते परन्तु अहं तत्त्वस्य परमपुरुषेण सह साक्षात् साक्षात् सम्बन्धः नास्ति तत्र मध्ये महत्तत्त्वम् अस्ति तर्हि इदानीं भ्रमणः मापनं करणीयं चेत् अहं तत्वेन एव करणीयं परन्तु अहं तत्त्व तत्त्वस्य सम्पर्कः साक्षात् नास्ति यदा वयं साधनायां वयम् अन्ते गच्छामः तदानीम् अहं तत्वं तु महत्तत्त्वे लीनं भवति यदा लीनं भवति तत्तु अपगच्छति तर्हि इदानीम् अहं नास्ति येन वयं भ्रमणः मापनं कर्तुं शक्यते महत्तत्वं तु किमपि कर्तुं न शक्नोति स्वस्य केवलं स्वस्य अस्तित्वमेव सा जानाति इति कृत्वा भ्रमणः मापनं न शक्यते इति अस्माभिः उक्तं तर्हि अस्माभिः उक्तं तत्र निर्गुण अवस्थायां प्रकृतिः पुरुषं गुणान्वितं न करोति इति अस्माभिः उक्तं तत्र निर्गुणावस्थायां प्रकृतिः पुरुषं किमर्थं गुणान्वितं न कर्तुं शक्नोति सगुणावस्थायां तु कर्तुं शक्नोति कर् तर्हि निर्गुणावस्थायां किमर्थं कर्तुं न शक्नोति इति प्रश्नः भवति तदानीं तत्र उत्तरद्वयं भवितुमर्हति एकमस्ति प्रकृतिः सुप्तावस्थायाम् अस्ति अतः न कर्तुं शक्नोति इति एकम् उत्तरम् अन्यत् उत्तरमस्ति प्रकृतिः पुरुषस्य अपेक्षया बलहीना अस्ति इति कृत्वा पुरुषं गुणान्वितं कर्तुं न शक्नोति इति अस्ति तर्हि अत्र प्रथम प्रथमसम्भावना अस्ति यत् प्रकृतिः सुषुप्तवस्थायाम् अस्ति इति सम्भावनां स्वीकुर्मः तदानीं तत्र सुषुप्तवस्थायाम् अस्ति तदानीं यदा जागृता भवति तदानीं प्रकृ प्रकृतिः पुरुषं गुणान्वितं करोति इति वक्तव्यं भवति परन्तु इदानीं प्रश्नः अस्ति यदि प्रकृतिः सुषुप्त अवस्थायाम् अस्ति तर्हि तस्याः उत्तापनं केनचित् करणीयं तत्र ब्रह्मणि तु वस्तुद्वयमेव अस्ति प्रकृतिः पुरुषः यदि प्रकृतिः सुषुप्त अवस्थायाम् अस्ति तर्हि तस्याः उत्तापनं केन क्रियते पुरुषेण क्रियते वा इति चेत् पुरुषेण कर्तुं न शक्यते यतोहि पुरुषः प्रकृतेः सहायं विना स्वस्य अस्तित्वम् अपि न जानाति तर्हि स्वस्य अस्तित्वमपि न जानाति चेत् सः किमपि कर्तुं न शक्नोति यदा स्वस्ति अस्तित्वं जानाति तदानीं तत्र महत्तत्त्वम् आयाति महत्तत्वं यदा आयाति तदनन्तरम् अहं तत्त्वं यदा आयाति अहं तत्त्वं यदा आयाति तदानीं पुरुषः प्रकृतेः उत्तापनं कर्तुं शक्यते परन्तु निर्गुणावस्थायां पुरुषस्य गुणान्वयः नास्ति प्रकृतिः सुषुप्त अवस्थायाम् अस्ति इति वयं वदामः तत्र प्रकृतेः उत्थापनं केनापि कर्तुं न शक्यते पुरुषेण तु कर्तुं न शक्यते इति कृत्वा अस्माभिः प्रकृतिः सुषु सुषुप्तवस्थायाम् अस्ति इति वक्तुं न शक्यते प्रकृतिः तु जागरिता एव अस्ति तस्यां गुणाः अपि सन्ति गुणाः अपि सक्रियाः एव सन्ति तथापि प्रकृतिः पुरुषं गुणान्वितुं गुणान्वितं कर् गुणान्वितं कर्तुं गुणान्वितं कर्तुं न शक्नोति किमर्थं न शक्नोति इति चेत् अस्माभिः अङ्गीकरणीयं यत् प्रकृति बलहना अस्सी तस्यावस्थ निर्गुणवस्था इतनी बलवान्स्ट प्रकृति प्रकृते गुणा प्रभाव पुषे ना निर्गुणवस्थाया प्रकृति जागरिता है अस् परु पुषं प्रभावित कर्म न शक्न यकृति बलहना अस्त अवस्थायां ती पुष बल अस्त इति कृत्वा सः तस्याम् अवस्थायां सः गुणेन प्रभावितः न भवति इति कृत्वा तत्र निर्गुणावस्थायाम् इति कृत्वा तत्र सृष्टिः नास्ति निर्गुणवस्थायां सृष्टिः नास्ति परन्तु अन्यत्र यत्र ब्रह्मसमुद्रे अन्यत्र पुरुषः पुरुषः तत्र प्रकृतेः कृते अनुमतिं ददाति अनुमतिं ददाति यदा अनुमतिं ददाति तदानीं प्रकृतिः स्वगुणैः पुरुषं प्रभावितं करोति तदानीं सृष्टिः आगच्छति इति तावत्पर्यन्तम् अस्माभिः प्राप्तम् इदानीं ततः अग्रे किञ्चित् गच्छामः मित्र विजयभग्नि अग्रे पठति वा नमस्कारः महोदय नमस्कारः यस्याम् एव खलु यस्यां <coughs> ब्रह्म अवस्थायां पुरुषः प्रकृत्या प्रभावितः गुणान्वितः वा न भवति तस्याम् अवस्थायां पुरुषः ब्रह्मणि अव्यक्तः एव तिष्ठति तत्र पुरुषः निर्गुणः पुरुषः इत्युच्यते निर्गुणः पुरुषः इति उच्यते यत् पुरुषः प्रकृत्या प्रभावितः प्रभा गुणान्वितः च भवति तत्र सः साह। सहुणः पुरुषः इति उच्यते अतः स गुणब्रह्म इति सहुण ब्रह्म इति तादृश अवस्था यत्र पुरुषः प्रकृत्या प्रभावितः गुणान्वितः च भवति अत्र ब्रह्म अवस्थायां पुरुषः प्रकृत्या प्रभावितः गुणान्वितः वा न भवति यत्र ब्रह्मावस्थायां पुरुषः प्रकृत्या प्रभावितः गुणान्वितः अत्र गुणसहितः नास्ति एव तस्याम् अवस्थायां पुरुषः तु ब्रह्मणि अव्यक्तः व्यक्तः नास्ति एव तिष्ठति तत्र पुरुषः निर्गुणः गुणरहितः एव भवति तत् समये निर्गुणः पुरुषः इति वक्तुं शक्यते एव पुरुषः प्रकृत्या प्रभावितः यत्र भवति तत् गुणान्वितः अपि भवति तत् समये सगुणपुरुषः इति वक्तुं शक्यते अतः सगुणब्रह्म इति अवस्थायाम् अत्र तिष्ठति अतः ब्रह्मणि अवस् द्वे अवस् ते स्तः एक एकस्मिन् पक्षे निर्गुणब्रह्म अन्यस्मिन् पक्षे सगुणब्रह्म इति तावदेव खलु महोदय आं भगिनि सम्यक्तया उक्तवती सम्यक्तया उक्तवती इति एव अस्ति इत्युक्ते ब्रमसमुद्रं ब्रह्मसमुद्रमेकमस्ति परन्तु केषुचित् स्थलेषु प्रकृतिः बलहीना अस्ति इति कृत्वा पुरुषः गुणान्वितः नास्ति अन्येषु स्थलेषु प्रकृतिः बलवती भवति पुरुषस्य अपेक्षया यतोहि पुरुषः अनुमतिं ददाति तदानीं किं प्रकृतिः प्रकृतिः किं करोति इति चेत् प्रकृतिः पुरुषं गुणान्वितं करोति तदानीं सृष्टिः जायते इति कृत्वा ब्रह्म तु एकमेव अस्ति ब्रह्मभिन्नभिन्नब्रह्म इति नास्ति सगुणब्रह्मभिन्नं निर्गुणब्रह्म भिन्नम् इत्युक्ते अन्य वस्तु इति नास्ति ब्रह्म तु एकमेव परन्तु तस्य स्वरूपं भिन्नमस्ति इत्युक्ते यथा समुद्रे समुद्रे जलमस्ति केषुचित् सल स्थलेषु जलमस्ति अन्येषु स्थलेषु हिमखण्डः वर्तते हिमखण्डः वर्तते तत्र हिमखण्डः इति यः भागः अस्ति सः भागः सगुणब्रह्म इति वयं वक्तुं शक्नुमः तत्र प्रकृतेः गुणप्रभावेन तत्र जलस्य स्वभावस्य परिवर्तनं भवति अन्येषु स्थलेषु समुद्रजलं यथा तथैव वर्तते तत्र निर्गुणावस्था इति वयं वक्तुं शक्नुमः यत्र हिमखण्डः वर्तते तत्र सगुणावस्था इति वयं वक्तुं शक्नुमः अस्तु तर्हि इदानीं किञ्चित् अग्रे गच्छामः तत्र सरिताभगिनी अग्रे वदति वा धन्यवादः नमस्ते महोदय द्वे प्रश्ने उत्पद्य उत्पद्येते प्रथमः प्रश्नः अस्ति यत् यदि निर्गुणब्रह्म ब्रह्मस्वरूपम् अथवा ब्रह्मणः परपदम् अस्ति तर्हि सगुण ब्रह्म प्रश्न अस्त यदि पुष्हा भाव अतिशक्तिमा अस्त तरी सगुण ब्रह्मवस्थाया प्रकृत कथ सभा गुणाविता भविम अर्हति अथवा सगुण ब्रह्म कथम जश्न अच्छा किमपि नूतनं न उक्तम् ब्रह्म तु एकमेव वर्तते तर्हि कथं सगुणब्रह्म इति अन्य ब्रह्म भवितुम् अर्हति अर्थात् द्वितीय यदि पुरुषः अधिक शक्तिमान् अस्ति तर्हि सगुणावस्थायां कथं सः प्रकृतयः गुणान्वितं भवति इति प्रश्नः भवति सगुणब्रह्म कथं जायते इति प्रश्नः भवति निर्गुणम् एतदेव उक्तमिति अहं सम्यक् तदेव अस्ति इत्युक्ते सगुणब्रह्म कथं जातमिति एव मूलप्रश्नः इत्युक्ते प्र पुरुषः बलवान् अधिकबलवान् अस्ति चेत् कथं सगुणावस्थायां तस्य बलं बलहीनं भवति कथम् इत्युक्ते ब्रह्मणि इत्युक्ते वयं किं वदामः शक्तिः सा शिवस्य शक्तिः इति वदामः खलु शक्तिः शिवस्य अधीना वर्तते शिवशक्त्यात्मकं ब्रह्म शक्तिः सा शिवस्य शक्तिः तर्हि शक्तिः प्रकृतिः पुरुषस्य प्रकृतिः अस्ति सा अधीना अस्ति तर्हि अत्र सगुणावस्थायां कथं तस्याः अधीनत्वं कुत्र गतं निर्गुणावस्थायां प्रकृतेः अधीनत्वम् अस्ति सगुणावस्थायां तस्याः अधीनत्वं कुत्र गतं कथं कथं तत्र पुरुषः अधीनः इव भासते सगुणावस्थायाम् इति प्रश्नः तर्हि सगुणब्रह्म नाम किम् इति अस्माभिः अवगन्तव्यं ततः अग्रे निर्गुणम् सगुणम् चेति ब्रह्मणः एव भिन्नम् अवस्थाद्वयम् वर्तते निर्गुणावस्थायाम् प्रकृतिपुरुषौ च एकत्र विद् विद्येते परन्तु प्रकृतिः पुरुषम् गुणयुक्तम् कर्तुम् असमर्था सगुणावस्थायाम् अपि प्रकृतिपुरुषौ च एकत्र विद्यते परन्तु अत्र प्रकृतिः पुरुषम् चोदयि चोदयित्वा गुणान्वितम् च करोति एवम् प्रकृतिपुरुषयोः मध्ये सम्बन्धभेदात् पूर्वम् निर्गुण निर्गुणमित्युक्तम् अनन्तरम् च सगुणब्रह्म इत्युच्यते सुप्तरामः जागृतः रामः च केवलम् एकस्यैव पुरुषस्य भिन्नम् अवस् भिन्नम् अस्तित्वद्वयम् सूचयति तौ भिन्नौ पुरुषौ इत्यर्थः नास्ति तथैव निर्गुणब्रह्म सगुणब्रह्म च एकस्यैव ब्रह्मणः द्वे भिन्ने अवस्थे स्तः so, um, अत्र um, सगुणब्रह्म निर्गुणब्रह्म द्वयम् अन्य भिन्नभिन्न पृथक् पृथक् नास्ति किन्तु एकम् एव ब्रह्मा अस्ति तस्य द्वी स्थितिः एतत् एत द्वि अवस्थायाम् अस्ति निर्गुणावस्थायाम् प्रकृति प्रकृति पुरुषः एकत्र एव भवति यदा प्रकृतिः गुणायुक्तं भवति तथा भिन्नभिन्न भिन, प्रकृतिः पुरुषः तत्र एकम् एव भ्रम अस्ति तत्र तस्य भिन्नभिन्न अवस्था इति भिन्नभिन्न द्वि पृथक् पृथक् अस्ति इति न वक्तुं शक्नुमः सगुणब्रह्म वा निर्गुणब्रह्म वा एकम् एव तत्र प्रकृति प्रकृतिः तु Uh, uh, गुणान्वितं भवति uh, पुरुषम् उद उदयित्वा गुणान्वितं भवति uh, पुरुषः गुणान्वितः भवति प्रकृत्या oh. पुरुषः प्रकृत्या पुरुषः गुणान्वितं भवति hmm. hmm. इत्युक्ते गुणस्य प्रभावः पुरुषस्य उपरि भवति इत्यर्थः प्रकृतेः प्रभा प्रकृतेः प्रकृतेः ये गुणाः सन्ति तैः गुणैः पुरुषः प्रभावितः भवति सो so, अत्र प्रकृतिपुरुषयोः मध्ये स वेद सम्बन्धभेद पूर्वं ब्रह्म ब्रह्म निर्गुणब्रह्म इति उच्यते अनन्तरं सगुणब्रह्म इति उच्यते सो so, एकत्र यथा पुरुष पुरुषप्रकृतिः एकत्र अस्ति भिन्नं न भवति तत् तत, तस्मिन् समये एकमेव ब्रह्म यथा पुरुषप्रकृतिः इति गुणान्वितः भवति तथा सगुणब्रह्म निर्गुणब्रह्म इति उच्यते किन्तु तत् भिन्नभिन्न ना अवस्था नास्ति अन्य अन्य अस्ति पृथक् पृथक् अस्ति न वक्तुं शक्नुमः यथा रामः सुप्तावस्था अस्ति नो चेत् जागृतावस्था अस्ति अस्ति किन्तु रामः तु एकः सो तथा एव एकस्य एव पुरुषः अस्ति सः सो अतः त तु भिन्न तत् तौ भिन्न भिन्नौ पुरुषौ इति न वक्तुं शक्नुमः तथा एव ब्रह्म अपि एकः ब्रह्मणः अपि ब्रह्म एक एकमेव अस्ति सगुणब्रह्म निर्गुणब्रह्मात् अपि एकमेव एकस्य ब्रह्मस्य ब्रह्मणः षष्टि ब्रह्मणः ब्रह्मणः ब्रह्मण एकस्य ब्रह्मणः द्वे भिन्नभिन्न अवस्था भवति किन्तु ब्रह्मणः ब्रह्म एकः एव निर्गुणब्रह्म सर्गुणब्रह्म इति नामम् दीयते किन्तु ब्रह्म तु एकमेव समीचीनं सम्यक् भगिनि इत्युक्ते निर्गुणब्रह्म सगुणब्रह्म इति अवस्थाद्वयम् अस्ति यथा मया किञ्चित् कालपूर्वं प्रतिपादितं तत्र ब्रह्मसमुद्रं वर्तते केषुचित् स्थलेषु हिमखण्डः अस्ति अन्येषु स्थलेषु केवलं द्रवीभूतं जलं तर ही ही वर्तते तर्हि यत्र हिमखण्डः वर्तते तत्र वयं वक्तुं शक्नुमः सगुण सगुणब्रह्म इति यतोहि तत्र प्रकृतेः गुणः गुणस्य प्रभावेन पुरुषः यः शुद्धजलमस्ति तस्य परिवर्तनं रूपपरिवर्तनं जातम् इदानीं हिमखण्डः इव दृश्यते इति तत्र तत्रापि तत्रा प्रकृतिः अस्ति तत्रापि पुरुषः अस्ति हिमखण्डे अपि प्रकृतिः अपि अस्ति पुरुषः अस्ति पुरुषः तु जलरूपेण अस्ति तत्रापि परन्तु इदानीं सः तत्र द्रवीभूतः द्रवीभूतं नास्ति तत्र तस्याम् अवस्थायां परन्तु अन्यत्र जलं द्रवीभूतम् अस्ति तत्र तत्र निर्गुणब्रह्म इति वयं वदामः तत्रापि पुरुषः अपि अस्ति प्रकृतिः अपि अस्ति प्रकृतिः अस्ति परन्तु सः पुरुषं गुणान्वितं कर्तुं न शक्नोति यत्र गुणान्वितं करोति तत्र हिमखण्डः जातः एवमेव अस्मि अस्मिन् जगति यदा पुरुषः प्रभावितः अस्ति प्रकृतेः गुणेन प्रकृतेः गुणैः तदानीम् इदं जगत् परिदृश्यमानं जगत् अत्र विविधानि वस्तूनि दृश्यन्ते खलु भिन्नभिन्नवस्तू वस्तूनि दृश्यन्ते यस्य भिन्नभिन्ननाम आकारः भिन्नः आकारः भिन्नः नामकरणम् एतत् सर्वम् अस्ति खलु तत्तु सगुणब्रह्मावस्थायां भवति यदा प्रकृतेः प्रभावः भवति तर्हि विविधैः गुणैः एतादृशपरिदृश्यमानं जगत् दृश्यते यत्र भिन्नभिन्नवस्तूनि सन्ति परन्तु यत्र प्रकृतिः पुरुषं प्रभावितं गुणान् गुणान्वितं कर्तुं न शक्नोति तदानीं तत्र केवलं शुद्धपुरुषः केवलं जलमेव अस्ति तत्र सृष्टिः नास्ति एतानि विविधानि वस्तूनि न दृश्यन्ते तदानीम् इति कृत्वा ब्रह्म तु एकमेव वस्तु अस्ति तत्र भिन्नभिन्नवस्तु इति नास्ति एकमेव वस्तु परन्तु तस्य एव स्वभावस्य परिवर्तनं भवति केषुचित् स्थलेषु केषुचित् स्थलेषु प्रभावः न भवति इति वार्ता तत्र तर्हि किञ्चित् अग्रे गच्छामः इदानीं सरलाभगिनी पठति वा नमस्कारः यदा प्रकृत्या अनुचैतन्यं गुणान्वितं भवति तदा बुद्धिसत्त्वं स्वस्य अस्तित्वं प्राप्नोति इति पूर्वं पर्यवसितम् आसीत् भूमाचैतन्यं वा परमपुरुष भ्रह्मण्डी ब्र, दी, ब्रह्मण्डीय चैतन्यम् अनन्तसङ्ख्यासङ्ख्यानाम् सं, अनुचैतन्यानां सामूहिकं नाम, अनु नाम, नाम परमपुरुषः अपि यथा अनुचैतन्यं तथा समानान् सिद्धान्तान् धर्म वा अनुसरेत् गुणाः समानाः भवेयुः केवलं भेदः अस्ति यत् अनुचैतन्यस्य व्याप्तिपरिमिता ्रह्माण्डीयचैतन्यस्य तु अनन्ता अतः अस् अस्ति अस्य अर्थः अस्ति यत् यावत् प्रकृत्या ब्रह्माण्ड ब्रह्माण्डी ब्रह्माण्डीयचैतन्यम् अथवा परमपुरुषप्रभावितः गुणान्वितः च भवति तावत् सृष्टिः अस्तित्वं प्राप्नोति यस्मिन् स्तरे प्रकृत्या पुरुषगुणान्वितः सगुणब्रह्म अस्ति सगुणब्रह्मकारणात् जगत् स्पृष्टं भवति इदानीं स एव चिन्तनम् अत्र भिन्नरीत्या दत्तमस्ति यत् निर्गुणब्रम ब्रमणं वदामः वयं तस्य अन्यानि नामानि अपि वयम् जानीमः यथा भूमाचैतन्यं परमपुरुष ब्रह्माण्डीयचैतन्यम् इति ते सर्वे प पर, परिवसितशब्दाः सन्ति इति अणुचैतन्य वयं वदामः अनन्तरसख्यानाम् अनुचैतन्यम् इति सामूहिकं नाम नाम अस्ति इति किन्तु यदि परमपुरुष गुणान् यज यदा भवति तदा एव वयं सगुणं ब्रह्म इति वदामः यदि गुणान्वितं भवति तदानीमेव तस्य प्रभा प्रकृत्या प्रभावेन प्रकटीकरोति महत्पुरुषे बुधित्वं वा बुधितत्वं वा वयम् अहं तत्त्वं या इति चित्तम् इति वयं जानीमः किन्तु यत् ब्रह्माण्डे वयं पश्यामः जगति इति यत् अस्ति तत् सगुणप्रभावेण अस्ति न तु अव्यक्तनिर्गुणब्रह्मणस्य द्रष्टमस्ति यत् वयं पश्यामः तत् अस्ति सगुणब्रह्मण प्रभाव इति अस्ति समीचीनं भगिनी सम्यक्तया उक्तवती अत्र इत्युक्ते एकः एव सिद्धान्तः स्तरद्वये कार्यं भवति एकं तु अत्र पुरुषः पुरुषः यः अस्ति सः अणुस्तरे जीवस्तरे अस्ति भूमास्तरे अपि अस्ति तत्र अणुचैतन्यम् इति वयं वदामः जीवात्मा अणुचैतन्यम् इति वदामः तदा समग्रतया समष्टिरूपे समष्टिरूपेण भूमाचैतन्यम् इति वयं वदामः तत्र अणुस्तरे अणुचैतन्यम् इति वयं वदामः उभयत्र सिद्धान्तः समानः समानः सिद्धान्तः यदा वयं अणुचैतन्यम् अनन्तरं भूमाचैतन्यम् अस्माभिः पूर्वं दृष्टं यदा पुस्तकस्य दर्शनं भवति कथं तद्भवति अत्र अणुचैतन्यं यदा अणुचैतन्यं यदा प्रभावितं भवति पुरुष प्रकृत्या तदानीं प्रकृतेः सत्त्वगुणस्य प्रभावेन महत्तत्त्वम् आयाति तदानीम् अहमस्मि इति भावः आयाति तदनन्तरं पुनः तत्र प्रकृतेः रजगुणस्य प्रभावेन महत्तत्त्वे तदानीम् अहं तत्वम् आयाति तदानीम् किमपि कर्तुं शक्नोमि अहं कर्ता इति भवति तदनन्तरं यदा तमोगुणस्य प्रभावः भवति प्रकृतेः तमोगुणस्य प्रभावः भवति अहं तत्वे तदानीं चित्तम् आयाति चित्तमेव अत्र तत्र मूवी स्क्रीन, अस्ति मूवी स्क्रीन् आफ् द मैण्ड् अस्ति यत्र बाह्यवस्तु यदस्ति तस्य आकारः भवति यदा पुस्तकम् इति बाह्यवस्तु अस्ति तस्य आकारः चित्ते भवति तदानीं तत्र चलनचित्रमिव तत्र अस्ति तत्र चित्ते पुस्तकस्य दर्शनं भवति अहं तत्त्वेन एतत् सर्वम् पूर्वं दृष्टं यद् अणुस्तरे एतत् सर्वं भवति इति अस्माभिः ज्ञातं तथा एव भवति भूमास्तरे अपि भूमास्तरे अपि अत्र जगति यत्किमपि जायते तत्सर्वं ब्रह्मणः चित्ते परमपुरुषस्य चित्ते एतत् सर्वं जायमानम् अस्ति यद् अत्र इदानीम् अहं किमपि पुस्तकं स्वीकरोमि तत्सर्वं ब्रह्मणः चित्ते एव जायते यद् भवती करोति तदपि भ्रमणः चित्ते अस्ति यद् यद् यद् अत्र अस्माकं वर्गे ये जनाः सन्ति ये किं किं किं किं कुर्वन्ति तत् सर्वं ब्रह्मणः चित्ते एव अस्ति तत्तु भूमास्तरे अस्ति तत्र अणुस्तरे यत्किमपि जायते तदेव जायते भूमास्तरे अपि एतत् सर्वं कथं भवति इति चेत् प्रकृतेः त्रिगुण त्रिगुणस्य प्रभावेण त्रिगुणात्मिका प्रकृतिः तस्याः प्रभावेन पुरुषः एव एतत् सर्वम् आकारं जगतः आकारं पुरुषः एव स्वीकरोति तदानीं सगुणब्रह्म इति वयं वदामः तदेव अत्र सगुणब्रह्म यदा सगुणब्रह्मणः मनः वर्तते तथैव अस्माकमपि मनः वर्तते सगुणब्रह्मणः मनः मनसि अपि त्रयः अंशाः सन्ति यस्माक यथा अस्माकम् अंशाः सन्ति मनसः तथा सगुणब्रह्मणः अपि अंशा अंशाः सन्ति सगुणब्रह्मणः मनः अपि गुणस्य प्रभावेन एव निर्मितमस्ति क्रमेण मात्तत्त्वम् अहं तत्त्वं चित्तम् इति रूपेण यदा गुणीभूताः भवन्ति तदानीं भवन्ति तर्हि अत्र एवं रीत्या सगुणब्रह्मणः आकारः भवतीति अस्माभिः दृष्टम् इति वदामः सत्यं सत्यं व्यष्टि समष्टि इति एव अस्ति व्यष्टिष्टि इति तत्र अणुस्तरे अस्ति अणुजीवस्य स्तरे अस्ति समष्टि इति भूमास्तरे अस्ति भगिनि यत् पुरुषसूत्रं यदि वयं पठामः तत्र एतत् आगच्छतिकपादौ एव भवति त्रिपादम् इति निर्गुणब्रह्म इति ज्याया पुरुषः पादोस्य विश्वभूतानि त्रिपादस्य अमृतं दिवि द्वितीयमस्ति त्रिपाद ऊर्ध्व उदयितपुरुषः पादोष्यः भवति उत्पन्नः ततो विश्वङ्ग व्याक्रम शाशनाशने अभि इति त्रिपादम् एव निर्गुण अव्यक्तं भवति एकपादमेव व्यक्तं भवति यथा भवती समुद्रस्य उदाहरणं दत्तवती या हिमखण्डस्य उपरि केवलं हिमखण्ड दृश्यते किन्तु वस्तुतजलमेव अस्ति यत् अधोभागे समुद्रस्य पूर्णजलमेव अस्ति तथा एव एकपादस्य सृष्टिः इति आं भगिनि आम् तथैव अस्ति तदेव अत्र अपि उक्तमस्ति खलु अतः अस्माभिः पूर्वमपि दृष्टं तत्र सगुणब्रह्म तु निर्गुणब्रह्मणि एव अस्ति निर्गुणब्रह्म विराट् अस्ति विराट् अस्ति तत्र एव सगुणब्रह्म इत्यपि अंशः अस्ति इति अपि अस्माभिः उक्तं खलु तत्र अत्र परमपुरुषः यः अस्ति तस्य एव सः तु सः तु सर्वेषाम् अनुचैतन्यानां सामूहिकः अस्ति अपि च ये अनुचैतन्यम् इत्युक्ते यद् चैतन्यं व्यक् व्यक्तीभूतं नास्ति यद् चैतन्यं व्यक्तीभूतं नास्ति तस्यापि समग्ररूपेण तत्र परमपुरुषः अस्ति इत्युक्ते परमपुरुष इस् द मल्टिपल् आफ़् दि द युनिट् कान्शियस्नेस् विच् हेव् बीन् एक्स्प्रेस् and also the unit consciousness which have not been expressed yes ya vyaktikaranam na jatam itopi adatra anu chaitanyam idani bija avasthaya asti tasya api samagra rupeṇa nirguna nirguna brahma iti vai maktam shapnam itupte tadrasa anu anu chaitanyam asya vyaktikaranam jatam idanim sharire sharirena sambandham asti tadrasa anu chaitanyam api cha tadrasa anu chaitanyam asya vyaktikaranam idani netavatana jatam bija avasthaya asti तस्यापि सर्वेषां समग्ररूपेण अत्र परमपुरुषः निर्गुण अवस्थायां परमपुरुषः इति वयं शक्नु वक्तुं शक्नुमः निर्गुणब्रह्म इति वक्तुं शक्नुमः तदेव समुद्रस्य उदाहरणमस्ति तत्र बहु बहुजलं बहु यदस्ति तद् निर्गुणावस्थायाम् अस्ति केषुचित् स्थलेषु स्थगुणब्रह्म वर्तते अस्तु अत्र स्थगनं कुर्मः वा कोऽपि अन्य प्रश्नः अस्ति वा अस्तु तर्हि बहु समीचीनम् अस्ति हा सम्यक् बहु सम्यक् धन्यवादः भगिनी नमस्कारः धन्यवादः धन्यवादः सर्वज्ञः